मार्कण्डेयपुराणम् अध्यायं हण्ड्रेड् एण्ड् सेवेन्टीन् खनीनेत्रचरित्रवर्णनं मार्कण्डेय उवाच तस्य पुत्रकनीनेत्रो महाबलपराक्रमः यस्य यज्ञेष्वगायन्दगन्धर्वा विस्मयान्विताः खनिनेत्र समो नान्यो भुवि भविष्यति तेन यज्ञायुधे पूर्णे दत्ता पृथ्वी ससागरा दत्वा च सकलां पृथ्वीं ब्राह्मणानां महात्मनां तपःसा द्रव्यमासाद्य मोदयन् साधितेन यः यतश्च प्राप्य वित्तर्द्धिमतुलां दादृसत्तमाद जगृहुर्ब्राह्मणा विप्र नान्यराज्ञः प्रतिग्रहं सप्तषष्टिसहस्राणि सप्तषष्टिशतानि च सप्तषष्टिं चयो यज्ञानयजद्भूरिदक्षिणान् अपुत्रस्समहीपालो मृगयामुपचक्रमे पुत्रार्थं पितृयज्ञायमांसकामो महामुने अश्वारूढो विना सैन्यमेक एव महावने बद्धगोधाङ्गुलित्राणो बाणखड्गधनुर्धरः तं वाहयन्तं तुरगमन्यदो गहनाध्वनाद् विनिष्क्रम्य मृगःप्राह मां हत्वाभिमदं कुरु अन्ये मृगाः पलायन्ते महाभीत्या विलोक्यमाम् कथमात्मप्रदानं त्वं मृत्यवे कर्तुमिच्छसि मृग उवाच अपुत्रोऽकं महाराज वृथा जन्मप्रयोजनं विचारयन्न पश्यामि प्राणानामिह धारणं मार्कण्डेय उवाच अथाभ्येत्य मृगः प्राह तमन्यो मृगस्य तस्य प्रत्यक्षमलमेतेन पार्थिव खादयस्वेदि मां मां सैर्ममकर्म समाचर यथा पुत्रार्थं त्वं महाराजस्वपितृ न्यष्टुमिच्छसि अपुत्रस्यास्य मांसेन लप्स्यसे वाञ्छितं कथम् यादृक्कर्मविनिष्पाद्यं तादृक्द्रव्यमुपाहरेत् दुर्गन्धैर्नसुगन्धानां गन्धज्ञानविनिर्णयः जोवाच वैराग्यकारणं प्रोक्तमनेन पुत्रदा मम कथ्यदां प्राणसन् त्यागे यत्ते वैराग्यकारणं मृग उवाच बहवो मे सुता भूप बह्व्यो दुःखितरस्तथा यच्चिन्ता दुःखदावाग्निज्वालामध्ये वसाम्यहम् सर्वसाध्या नरेन्द्रेयं मृगजातिः सुखातरा तेष्वपत्येषु मे चाधिममत्वं तेन दुःखितः मनुष्यसिंहशार्दूल मृगादिभ्यो विभेम्यहं विहीनात् सर्वसत्त्वेभ्यः श्वशृगालादभिप्रभो सोऽहं निमित्तं बन्धूनामि मां शून्यां वसुन्धरां नृसिंहादिभयात्सर्वामिच्छामि सकृद। तृणान्येऽपि गोजा गोजाविदुरगाधिकाः तां तेषां पोषणायाहमिच्छामि निधनं ददान् निष्क्रान्तेषु ततस्तेषु ममापत्येषु वै पृथक् भवन्ति ममत्वावृतचेतसः किं कूढपाशं किं वज्रं वागुरां किं सुधो मम प्राप्तश्चरन्वने किम् वा नृसिंहादिवशं गतः प्राप्तोऽयमेकसम्प्राप्तास्तेवस्थां कीदृशीं मम साम्प्रतं ते चिरायन्ते ये गदासुमहावनं दृष्ट्वा प्राप्तान्ममाभ्याशमहं तानात्मजा नृप ईषदुच्छ्रवसिदः क्षेममिच्छामि रजनीं पुनः प्रभादे दिवसं क्षेममस्तगेर्के निशामपि वाञ्चाम्यहं कदाक्षेमं क्षेमं सर्वकालं भविष्यति ये कथिदं कथितम् भूपमहोद्वेगस्य कारणम् अधः प्रसादं कुरु मे बाणोऽयं पत्यतां मयि इति दुःखसदाविष्टः त्यजामि यद् तत्कारणं निबोधत्वं ब्रुवदो मम पार्थिव असूर्या नाम लोका यान् गच्छन्यात्मकादकाः यज्ञोपयुक्ताः पशवः संप्रयान्युवदच्छ्रितीः प्रभो अग्निः पशुरभूत्पूर्वम् जलाधिपः पशुरासीज्जलाधिपः भास्वानधोच्छ्रुती प्राप्ता यज्ञे निष्ठामुपागताः तन्ममैदां कृपां कृत्वा नयमा नृप आत्मनश्चेप्सिदं कामं पुत्रलाभादवाप्स्यसि पूर्वमृग उवाच राजेन्द्रनैष हन्तव्यो धन्योऽयं सुहृदी मृगः बहवस्तनया ह्यस्य हन्तव्योऽहमसन्ततिः पुत्रमृग उवाच एकदेहभयं यस्य दुःखं धन्यः स वै भवान् बहूनि यस्य तस्य दुःखान्यने कथा एको यदाहमासं तु प्राक्तदा देहजं मम मा। दुःखमासीन् मम त्वे यदा जादान्यपत्यानि तदा यावन्दितानि वै तावच्छरीरभूमिनि मम दुःखान्यथाभवन् न कृतार्थो भवाम्यस्य नादिदुःखाय सम्भवः इह दुःखाय मत्सूदिः परत्र च विरोधिनि यतो रक्षणपोषार्थमपत्यानां करोमि तद् चिन्तयामि च सम्भुधिस्तेन मे नरके ध्रुवं राजोवाच नवेत्मि किं सन्दधि मान्धन्यो पुत्रोऽत्र किं मृग पुत्रार्थ चायमारम्भो मम दोलायते मनः दुःखाय सन्ततिः सत्यमैहि मुष्मिकायतत तत तथाप्यतनयान्यानिधिश्रुतं मया सोऽहं यदिष्ये पुत्रार्थमृदे प्राणिवथं मृग तपसैव प्रचण्डेन यथा पूर्वं महीपतिः इति श्रीमार्कण्डेयपुराणे खनिनेत्रचरितवर्णनं नाम सप्तदशाधिकशततमोऽध्यायः ओ